श्रीहरये नमः अत एकोनत्रिंशोऽध्यायः श्रीशुक उवाच भघवानपिता रात्रे शरदोत्पुल्लमल्लिकाः वीक्षरन्तु मनश्चक्रे योगमायाम् उपाश्रितः तधोटुरा च ककुभक्करैर्मुखम् प्राश्चा विलिम्पन्नरुणेन सन्तमैः ससर्षणीनाम् उदगाच्युचोमृजन् प्रियः प्रियाय इव दीर्घदर्षणः दृष्ट्वा मुगुत्वन्तमकण्ठमण्डलं रमाननाभं नवकुङ्कुमारुणम् वनं च तत्कोमलगोभिरञ्जितम् जगौ कलं वामदृशा मनोहरं निसंयगीतं तदनङ्गवर्धनं रजस्त्रियः कृष्णगृहीतमानसाः आजक्मुरन्योन्यमलक्षितो सहत्रकान्तो जवलोलकुण्टलाः दुहन्त्योभियुक्काश्चेत् दोहं मनुद्वास्यापरायुः परिवेषयन्त्य धित्वा पाययन्त्यः सुशून्पयः शुश्रूषन्त्यपतीन् काश्चेत् अश्नन्त्योपास्य भोजनं अंज त्य लोचने व्यस्तवस्त्र भरना काचि कृष्णा कंजयुम पति पितृभिभातृ बंधु गोविंदप्रमो न्यवर्त मोहिता अंतर्ग्रह गोप्यो लब्धविनिर्गमाः कृष्णं तद्भावनायुक्ता दद्योर्मीलितलोचनाः दुःसखः प्रेष्टविरह तीव्रतापधुताशुभाः ध्यानप्राप्ताश्च्युताश्लेष निर्वृत्या क्षीणमङ्गलाः तमेव परमात्मानं जगुर्गुणमयं देहं सत्यप्रक्षीणबन्धनाः राजोवाच कृष्णं विदुः परं कान्तं न तुः ब्रह्मतया मुने गुणप्रवाहो परमस्तासां गुणतियां कथम् स्त्रीशुक उवाच उत्तमपुरस्तात् एतत् ते चैत्यशित्तिं यथागतः द्विषण्णनपि ऋषि अधोक्षजप्रियाः गृणान्निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप अव्ययस्याप्रमेयस्व निर्गुणस्य गुणात्मनः कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदमेव नित्यं हरौ विदधतो यान्ति तन्मयतां हिते नै चैवं भवता भगवत्यजे योगेश्वरेश्वरे कृष्ण यत एतत् विमुच्यते ता भगवान् व्रजयोक्षितः अवदत्वदतां वदतां श्रेष्ठो वाचः पेशर्विमोचयन् श्रीभगवानुवाच स्वागतं वो महाभागाः प्रियं किं करवाणि वः रजस्यानामयं कच्चिद्ब्रूत आगमनकारणं रजन्येषा घोररूपा घोरसत्त्वनिषेविता प्रतीयातव्रजं नेकस्तेयं स्त्रीभिः सुमध्यमाहा मातरः पितरः पुत्रा भ्रातरः पतयश्च महान् विचिन्वन्ति ह्यपश्यन्तो मा कृत्वं बन्धुशाध्वसं दृष्टं वनं कुसुमितं राकेशकरञ्जितं यमुनानिललीलैजत्तरुपल्लवशोभितं तद्यातमाशिरं गोष्टं शुश्रूषध्वं पतिंसती हे क्रन्दन्ति वत्सा तान्पायय यत दुःख्यत अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः आगताह्युपपन्नं व प्रियन्ते मयि जन्तवः भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया तद्बन्तूनां च कल्याण्यक् प्रजानां च अनुपोषणं दुःशीलो दुर्भगो वृद्धो जटोरोग्यतनोपिवा पति स्त्रीर्न ढातव्यों लोके सुरपात अस्वर्ग्यम अयस्यम चलगुग्रश्रम भयावक जुगुप्स ओपपत कुल स्त्रियावण ध्याना मयि भाव नुकर्तना न तता सन्निकर्षेण प्रतियात ततो गृहान् श्रीसुक उवाच इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितं विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययां कृत्वा मुकान्य वशूच स्वसनेन सूक्षय चरनेन चरण भुवं लिखन्न हा अस्त्रशिकुचकुंकुम तस्तुर्मृध्यन्त्य उरुधुः कपरास्म तूष्णी प्रेष्टं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्त विनिवर्तित सर्वकामाः नेत्रे गोप्यवूच मैवं विभोर्हति भवान् गतितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलं भक्ता भजस्व दुरवग्रहमात्यजास्मान् देवायतादिपुरुषो भजते मुमुक्षून् स्त्रीणां स्वधर्म इति धर्मविधा त्वयोक्तम् अस्त्वेवमेतत् उपदेशपदे त्वयि सें प्रेष्टो भवां स्तनुभृतां किल भन्तुरात्मा कुर्वन्ति हि त्वयि रतिं आत्मन् नित्यप्रिये पतिसुधातिभिरार्धिदैः किं तन्न प्रसीदपरमेश्वरमास्म चिन्त्या आसां प्रदां त्वयि चिरात् अरविन्दनेत्र चित्तं सुखेन भवता अपहृतं गृहेषु यत् निर्विशत्युतकरावगृह्यकृत्ये पादौ पधं न चलतस्तव पादमूलात् यामक्कतं व्रजमतो वाम किं वा लोककलगीतजकृश्च याग्निं नो चेत् त्वयं विरकजाग्नि उपयुक्तदेहा ध्यानेन यामपदयो पदवीं सकेते यह्यम्बुजाश तव पादतलं रमाया तत्तक्षणं क्वचिदरण्यजनप्रियस्य अत्प्राक्ष्मत्तत् भृतिनान्यसमक्षमङ्ग स्थातुं त्वया बिरमिता पत पारयामः श्री यत्पदाम्बुज रजश्च गमेतुलस्य लब्ध्वापि वक्षसि पदम् किल प्रत्यजुष्ठम् यस्या स्ववीक्षणकृतेऽन्यसुरप्रयासः तद्वत् त्वयम् च धवपाधरजप्रपन्नाः तन्न प्रसीतवृजिनार्दनतेऽङ्घ्रिमूलम् प्राप्ता विसृज्य वसतिस्त्वदुपासनासाः त्वस्सुन्तरस्मितनिरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषणदेहि दास्यम् वीक्ष्यालकावृतमुखं तव कुण्डलश्री घण्डस्थलाधरसुतं हसितावलोकम् तत्ता भयं च भुजदण्डयुखं विलोक्य वक्षश्रियैकरमणं च भवामदास्यकास्त्र्यङ्गते कलबधायतमूर्छितेन सम्मोहितार्यचरितान्यचले त्रिलोक्य त्रैलोक्यसौभगमितं च व्यक्तं भवान् व्रजपयार्तिहरो बिजातो देवो यतादिपुरुषः सुरलोकगोप्ता तन्नो निदेहि करपङ्गचमार्तबन्धो तप्तस्तनेषु च शिरसु च किङ्करीणा त्रिसुक इति विक्लवितं दाशां श्रुत्वा योगीश्वरेश्वरः प्रगस्य सदयं गोपीम् आत्मा रामोऽप्यरीरम ताभिः समेताभिरुदारचेष्टित प्रिये क्षणोत्पुल्लमुखीभिरश्युतः उदारहासद्विजगुन्द दीदिर्व्यरोचतैनाङ्ग दी इवोढुभिर्व्रतः उपगीयमानमुद्गायन् वनिता सदयूतपः माला बिभ्रद्वै जयन्ते व्यचरन् मण्डयन् वनं नद्यापुलिनमाविश्य कुकोऽपि बिर्हिमवालुकं रेमे तत्तरन्दकुमुदा मोत नीबीस्तनालभननर्मनकाक्रपातैः क्ष्वेल्यावलोककसितैर्व्रजसुन्दरीणाम् उत्तम्बयन्द्रतिपतिं रमाय रमयाञ्चकार एवं भगवतः महात्मनः आत्मानं मे निरेस्त्रीणां मानिन्योऽप्यधिकम्भुवि तासां तत्सौभगमधं वीक्षमाणं च केशवः प्रसवाय प्रसादाय तत्रैव अन्तरदीयता इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्थे भगवतो राशक्रीडावर्णनं नाम एकोनत्रिशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमगराजिके जयी